षष्ठोऽध्यायः ध्यानम् ॐ नागाधिश्वरविष्टरां पणिपणो तंसोरुरत्नावली भास्वद्देहलतां दिवाकरनिभां देत्रत्रयोद्भासिताम् मालाकुम्भकपालनीरजकराम् चन्द्रार्धचूडापरां सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तयेम् ॐ ऋषिरुवाच इत्याकर्णवतो देव्या स दूतो मर्षपूरितः समाचष्टसमागम्य दैत्यराजाय विस्तरां तस्य दूतस्य तद्वाक्यम् आकर्ण्या सूर्यार्तता सक्रोधप्राहदेत्यानाम् अधिपम् धूम्रलोचनम् हे धूम्रलोचनाशुत्वम् स्वसैन्यपरिवारितः तामानयबलाद्दुष्टाम् केशाकर्षणविह्वलाम् तत्परिमित्राणदः कश्चित् यदि वो तिष्ठते परः स हन्तव्यो मरो यक्षो गन्धर्व एव वा ऋषिर्वाच तेनाव्यक्तप्तस्ततः शीघ्रं स दयत्योधुम्रलोचनः मृतः षष्ठासहस्राणाम् असुराणां धृतं ययौ स जिष्ट्वा तां ततो देवीं मूलं शुम्भनि न चेत्प्रीत्याद्य भवति मर्तारमुपैशति ततो बलान्याम्येष केशाकर्षणविफलां देव्यवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान् नयसि मामेवं ततः किं ते करोम्यहं ऋषिवाच इत्युक्तसोऽभ्यधावत्ताम् असुरोधुं प्रलोचनः हुङ्कारेणैव तम्भस्म सा चकाराम्बिका ततः अथ क्रुद्धं महासैन्यम् असुराणां तथाम्बिका ववर्ससायिकैश्चिक्ष्णै तथा शक्ति परस्वधैस्ततो धृतसतः शुभैरवम् पपातायांहो दिव्या काहारेण दैत्यान चापरा आक्रम्य चाधरे न्याघा महासुरा कटयास नखको्ठा केश तल प्रहारेण चिरांसीकृतवान् पृथक् व्यच्छन्न बाहुशिरसः कृतास्तेन तथा परे पपौचारुशिरं कोष्ठाद् अन्येषां धृतकेसरः क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तमसुरं देव्या निहितं धुम्रलोचनम् बलं च शयितं कृष्णं देवी केसरिणा ततः चुकोपदैत्याधिपतिः शुम्भः प्रस्फुरिताधरः आज्ञापयामास च तौ हे चण्ड हे मुण्डबलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च केसे सा समानीयतां लघु केशेष्वाकृश्च बद्ध्वा वा यदि वः संसयो युधि तदा सेसा युधै सर्वैः असुरैर्विनिहन्यतां तस्यां हतायां दुष्टायां शृङ्घे च विनिपातिते शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॐ श्रीमार्कुण्डे पुराणे श्रावणिके मन्वन्तरे देवी महात्म्ये शुम्भनि शुम्भसेनानि नम्रलोचनवधो नाम